एवतिनालाावद् दशकम् मधुरापुरी प्रवेशम् संप्राप्तो मधुराम् दिनार्दविगमे तत्रान्तरस्मिन् वसन् आरामे विहिता च न सखि जनैर् यातः श्रेपुम् सोद्यद गण्यपुण्यनिगले आकृष्यमाणो नु किम् त्वत्पादद्युदिवत् स्वराकसुबगास् त्वन्मूर्तिवद्योषित सम्प्राप्ता विलसत् मन्दस्मित प्रौढिवद् नैर्मल्योल्ल नैर्मल्योल्लसिता कशौ गरुचिवत् प्राजत्कलाभाष्रिता व्यालोलेषु जनेषु तत्र रजकम् कञ्चित् पटिम् प्रार्थयन् कस्ते दास्यति राजकीयवसनम् या सद्यस्तस्य करेण शेषमहृदा सोप्याय पुण्याम् गतिम् ोषेण वेशोचितम् दास्वासम् स्वबतम् निनेत सुहृदम् को वेद जीवात्मना मालाभिस्तबकैस्त्ववैरभिपुनर्मालाकृतामानितो भक्तिम् तेन वृदान्दिते चितपरां लक्ष्मीं च लक्ष्मीपते गुब्जामब्जविलोचनाम् पति पुनर्दृष्ट्वाङ्गरागे तया दत्ते साधु किलाङ्गरागमददास् तस्या महान्तम् हृतीम् चित्तस्ताम् ऋजुतामत प्रतयितुम् गात्रेपि तस्यास्फुटम् गृह्नन्मञ्जुकरेण तामुदनयस् तावज्जगत् सुन्दरी तावन्निश्चितवै भवस्तव विभो नात्यन्तपापा जना यत्किञ्चित् ददते स्म सत्यनुगुणम् ताम्बूलमाल्यादिकम् मार्गे निबद्धाञ्जली नातिष्टम् बतः यदोत्यविपुल मार्तिम् व्रजामि प्रभो येष्यामीति विमुक्तयापि भगवन् आलेपदार्त्यादया दूरात्कातरया निरीक्षितगतेस्त्वम् प्राविचो गोपुरम् आगोषानुमिदत्वदागममः हर्षो ललत देवकी वक्षो जप्रगलत् पयोरसमीक्षात् त्वत्कीर्तिरन्तर्गता आविष्टो नगरी मगोत्सववती कोदण्डचालाम् व्रजन् माधुर्येण नु पुरुषे दूरेण दत्तान्धरा श्रिर्भूषितमर्चितम् वरदनुर् मामीति वादात्पुरा प्रागृह्ना समरोपय किल समा काक्षीरवाङ्क्षीरपि <laughs> श्वकम् शक्षपणोत्सवस्य पुरत प्रारम्भदूर्योपमा कंसस्यापि वे च वेपतुस्तदुदित गोतण्टकण्डद्वयी चण्डाप्यागतरक्षिपूरुषरवै उत्कूलितो भूत्वया चिष्टैर्दुष्टजनैश्च दृष्टमहिमा सम्पश्यन् पुरसम्पतम् प्रविचरन् सायम् गतो वाटिकाम् श्रीदाम्ना सगरातिका विरहजम् केदम् वदन् प्रस्वपन् आनन्दन् अवतार कार्यगडनात् वादे च संरक्षमा कृष्ण बोल् कृष्ण बोल् कृष्ण कृष्णबोल् राधासमेदश्रीरदे कृष्णबोल्